नारदपुराणम् पूर्वार्धम् अध्यायम् नैण्टि एय्ट् श्रीब्रह्मोवाच अथ देशम् प्रवक्ष्यामि मार्कण्डेयाभिधं मुने पुराणम् सुमहत्पुण्यम् पठताम् शृण्वतां सदा यत्राधिकृत्य शकुनीन् सर्वधर्मनिरूपणम् मार्कण्डेयपुराणम् तन्नवसाकस्रमीरितम् मार्कण्डेय मुने प्रश्नो जैमि प्राक् समीरिदः पक्षिणं धर्मसंज्ञानं ततो जन्मनिरूपणम् पूर्वजन्मकथा चैषां विक्रिया च दिवस्पदेः तीर्थयात्राबलस्याद्धद्रौपदेयकथानकं हरिश्चन्द्रकथा पुण्ययुद्धमाडीबगाभिधम् पिता पुत्रसमाख्यानं दत्तात्रेयकथा तदः हैह है यस्याधचरितं महाख्यानसमन्वितं मदालक सा कथा प्रोक्ताख्यलर्कचरितान्विता सृष्टिसङ्कीर्तनं पुण्यं नवधापारिकीर्तिदा कल्पान्तकालनिर्देशो यक्षसृष्टिनिरूपणं रुद्रादिसृष्टिरप्युक्ता द्वीपचर्यानुकीर्तनं मनूनां च कथा नाना कीर्तिता पापहारिकाः तासु दुर्गा कथाप्यन्तं पुण्यदा चाष्टमेन्दरे तत्पश्चात्प्रणवोत्पत्तिस्त्रयी तेजः समुद्भवा मार्तण्डस्य च जन्माख्या तन्माहात्म्यसमन्विता वैवस्वदान्वयश्चाभि वत्सप्रीश्चरितं तदः खनित्रस्य तद प्रोक्ता कथा पुण्या महात्मनः अवीक्षिच्चरितं चैव किमिच्छ व्रतकीर्तनम् नरिष्यन्तस्य चरितम् इक्ष्वाकुचरितम् ततः नलस्य चरितम् पश्चाद् रामचन्द्रस्य तत्कथा कुशवंशसमाख्यानम् सोमवंशानुकीर्तनम् पुरुरभकथा पुण्या न हुशस्य ययादिचरितं पुण्यं यदुवंशानुकीर्तनं श्रीकृष्णबालचरितं माधुरं चरितं ततः द्वारकाचरितं चाथ कथा सर्वावता रजा तदस्साङ्ख्यसमुद्देश्यप्रपञ्चसत्त्वकीर्तनं मार्कण्डेयस्य चरितं पुराणश्रवणे फलं य शृणोदि नरो भक्त्या पुराणमिदमादराद मार्कण्डेयाभिधं वत् स लभेत् परमं गतिं यस्तु व्याकुरुते चैदच्छैवं स लभते पदं तत्प्रयच्छेल्लिखित्वा यत्सौवर्णकरिसंयुधं कार्तिक्यं द्विजवर्याय स लभे ब्रह्मणः पदं शृणोति श्रावये मार्कण्डेयपुराणस्य स लभेद्वाञ्छितं फलम् यदि श्रीब्रह् बृहत् नारदीयपुराणे पूर्वबाहे ब... पूर्वभागे बृहदुपाख्याने चतुर्थपादे मार्कण्डेयपुराणानुक्रमणि निरूपणं नामाष्टनवधितमोऽध्यायः ओम्